अथ करणं। ॐ शन्न इन्द्राग्नी भवता महोभिः शन्न इन्द्रावरुणाराधहव्या शमिन्द्रासोमा सुविताय शयुः शन्न इन्द्राभूषणावाजसातौ ॐ शन्नो भगः शमुनः शंसो अस्तु शन्नः पुरन्दिः शमुसन्धुरायः शन्नः शन सत्य सुयमस्त शंस शो अर्मापुरस्त ओं शो धाता शुर्ता शनो ऋची भवत स्वधा शोदसी बृहती शनो अद्रि शो देवा सुभवा सन्त नो अग्निज्योतिरनीको अस्तु शन्नो मित्रावरुणा वश्विनाशम् शन्नः सुकृताम् सुकृतानि सन्तु शन्न इशिरो अभिवातु वातः ॐ शन्नो द्यावापृथिवीपूर्वभूतौ शमन्तरिक्षम् दृशयिनो अस्तु शन्न ओषधिर्वनिनो भवन्तु शन्नो रसस्पतिरस्तु जिष्णुः शन्न इन्द्रो वसुभिर्देवोऽस्तु शमादित्येभिर्वरुणः सुशंसः शन्नो रुद्रो रुद्रेभिर्जलाशः शन्नः स्वष्टाग्नाभिरिह शृणोतु ॐ शन्नः सोमो भवतु ब्रह्म शन्नः शन्नो ग्रावाणः शंसन्तु भवन्तु शन्नः प्रस्वः शम्भस्तु ॐ शन्नसूर्य उरुचक्षा उदेतु शन्नश्चतस्रः प्रदिशो भवन्तु शन्नः पर्वता ध्रुवयो भवन्तु शन्नः सिन्धवः शमुसन्तापः ॐ शन्नो अदितिर्भवतु व्रतेभिः शन्नो भवन्तु मरुतः स्वर्गः शन्नो विष्णु शमुपूषानो अस्तु शन्नो भवित्रं शम्बस्तु वायुः ॐ शन्नो देवा शन्नो शो द्राण भवतु शिभातिषण पो प्रजाभ्येत्र पतिरस्तु शंभुनो दवा विश्व देवा शं सरस्वती सहधदीरस्त शमचह शुराति शम दिव्य पार्थिव शो अप्य शन्नः सत्यस्य पदयो भवन्तु शन्नो अर्बन्धः शमुसन्तु गावः शन्नरिभवः सुकृतः सुहस्तः शन्नो भवन्तु पितरो हवेषु ॐ शन्नो अज एकपाद्देवो अस्तु शन्नो हिर्बुद्ध्यः शं समुद्रः शन्नो अपाम्नपात् पेरुरस्तु शन्नः कृष्णैर्भवतु ॐ इन्द्रो विश्वस्य राजति शन्नो अस्तु चतुष्पदे शन्नो वातः पवताम् शन्नस्तपतु सूर्यः शन्नः कनिकृदद्देवः पर्जन्यो अभिवर्षतु ॐ अहानिशम् भवन्तु नः शम् रात्रिः प्रतिधीयताम् शन्न इन्द्राग्नि भवतामहोभिः शन्न शन्न इन्द्रापूषणावाजसातोषमिन्द्रासोमा सुविताय शयुः ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः ॐ जहुशान्तिरन्तरिक्षम् शान्तिः शान्ति पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिर्विश्वे देवः शान्तिर्ब्रह्म शान्तिः सर्वम् शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् पश्येम शरदः शतम् जीवेम शरदः शतम् शृणुयाम शरदः शतम् प्रभ्रवाम ्याम शरदः शतम् भूयश्च शरदः शता ॐ यज्जाग्रतो दूरमुदयति दैवम् तदु सुप्तस्य तथैव इति दूरङ्गमम् ज्योतिषम् ज्योतिरेकम् तन्मे मनः शिवसङ्कल्पमस्तु ॐ येन कर्माण्यपशो मनीषिणो कृण्वन्ति विदधेषु धीरः यत् पूर्वम् यक्षमन्तः प्रजानाम् तन्मे मनः ओम् यत्प्रज्ञानुमुतचेतो धृतिश्च यज्ञ्योतिरन्तरमृतम् प्रजासु यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॐ येनेदम् भूतम् भुवनम् भविष्यत्परिगृहीतममृतेन सर्वम् येन यजस्तायते सप्त होता तन्मे मनः शिवसङ्कल्पमस्तु ओम् यस्मिन् ऋचहसामयजुंषि यस्मिन् प्रतिष्ठिता रचनाभाविवारः यस्मिंश्चित्तम् सर्वमूतम् प्रजानाम् तन्मे मनः शिवसङ्कल्पमस्तु ॐ सुशारथिरश्वानि वयन्मनुष्यान् निीयति भीषुभिर्वाजिन इव हृत्प्रतिष्ठम् यदजिरम् जविष्ठम् तन्मे मनः शिव सङ्कल्पमस्तु ॐ स नः पवस्वशङ्गवे शं जनाय ॐ अभयम् नः करत्यन्तरिक्षमभयम् द्यावापृथिवी उभे इमे अभयम् पश्चादभयम् पुरस्तादुत्तरा नधरादभयम् नो अस्तु अभयम् मित्रादभयम् मित्रादभयम् जातादभयम् परोक्षात् अभयम् नक्तमभयम् दिवानः सर्वा आशा मम मित्रम् भवन्तु इति शान्तिकरणम्